अद्य चतुर्दशोऽध्यायः कलकत्तायां प्राप्येतयात्रासमये विश्रान्तिर्तिहेतुना शिष्यैः सहगतः स्वामी कलकत्तामग्निग्नौकया व्याहर्तुं स्वागतं तस्य कलकत्तानगरे कृतं सञ्जीकरणम् अत्यन्तं विपलेन क्रमेण च निजपुत्रस्य माहात्म्यं लोके सर्वत्र विश्रुतम् इत्यतस्तत्पुरं जातम् अभिमानवृजिम्भितम् वीथयोऽलङ्कृता जातां जयसूचकतोरणैः रथे स्वामिन मारोप्य, स्वामिनमारोप्य भक्त्याकर्षन् जना स्वयं लोकयात्राप्रकारेण स्तोत्रगीतादिकैः राजक्रिय राजक्रियगृहं किञ्चिन् आलीतः सततः परम् तस्विकारार्थम् अभवत् सार्वलौकिकमेलनं भागं गृहीतवन्तश्च तस्मिन् लोकासहस्रशः वेदान्तपठनं कर्तुं स्वामी सर्वानुपादिशत् संस्मृत्य गुरुदेवं स आदराञ्जलिर्मार्पयत् यत्किञ्चिदर्जितं तेन तत्सर्वं गुरुकारणात् महत्वं गुरुदेवस्य स्वामिना परिकीर्तितं दिने स्वल्पे सुपयाते सु गुरोर्जन्मदिनं शुभम् तस्य भक्तजनैः शिष्यै घोषितं दक्षिणेश्वरे विवेकानन्दवर्योऽपि तस्मिन् पुण्यदिनोत्सवे सतीर्थैश्च समं भागम् गृहीतुं तत्र यातवान् चिन्ता निमग्नः सञ्जातो यदा स्वामी व्यलोकयत् मन्दिराणि गुरुकक्षं तथा पञ्चवटीमपि दिवसायापितास्तेन नृपोचितनिकेतने निवासे निवासेऽ्यपिता निशाः सदापि स्वामिनं द्रष्टुम् आगता बहवो जनाः श्रोतुं तद्भाषणं यद्वा केवलं तमवेक्षितुं वेदान्तविषये वादम् विधातुं केचिदागता केचिदण्डे समायाता ज्ञानं तस्य परीक्षितुम् अविवाहितान् तरुणान् शिक्षितान् स उपादिशत् यावच्छक्यं दरिद्राणां साहाय्यं क्रियतामिति शुश्रूषां रोगिणां करिकुर्यु अज्ञानां शिक्षणं तथा लभेरंस्ते मनःशान्तिं परसहायां हायहेतुनाम् एतत्सर्वं तु मायास्ति गणनीयं नतत्किल। मुक्तिरेवान्तिमं लक्ष्यं कश्चित् प्राध्यापकोऽवदत् किं मोक्षविषयश्चापि मायान्तरभूत एव न तदा स्वतन्त्र आत्मेति वेदान्ते किं न एवं तर्हि किमर्थं वा न्यतितव्यं तु मुक्तये इत्येवं दृष्टवान् स्वामी वर्यप्राध्यापकं तदा मुक्त्यर्थं नैकदिवसान् गिरौ पूर्वं गुहान्तरे ध्यानं मया कृतं किन्तु फलं किमपि अद्य मुक्तिं न वाञ्छेहं यावत् कोऽपि धरातले वर्तते बन्धनस्थ सन् मोक्षो नैव मयेष्यते इत्येवं स्वामिना प्रोक्तं कदाचिद्धन्तनन्तरं स्वामिनो मनुजप्रेम ीमातीतम् अभूत् खलु अधुनातनकाले तु निःस्वार्थमर्त्यसेवनम् आध्यात्मिकफलं शीघ्रम् आनयेदिति सोऽवदत् एतद्बोधयितुं तस्य चतीर्थ्याश्च स उद्यतः ते सु केचन भूयोऽपि नाभवन् छिन्नसंशयाः कुरुत्वं देवेन सह एकदा गुरुरित्येवं स्वामिवर्यं अभासत अज्ञानां च दरिद्राणाम् रोगिणां चापि सेवनं यः कुर्यात् तस्य संसर्गो देवेन सह सम्भवेत् इत्यासीद्गुरुदेवस्य कथनस्य सदाशयः विवेकानन्दवर्येण स्वीकृतं गुरुशासनं विदेशेषु यदा तत्रत्यां भौतिकोन्नतिं साङ्केतिकपरिज्ञानं वैज्ञानिकपुरोगतिं विलोक्यनयनी चैलिखितं गुरोक्तिं स्मरति स्म सः शून्येभ्य उदरेभ्यो न धर्मो भवति ईश्वरस्य बहिर्भावो मानुषे प्रगटीकृतः अत प्रीडितम् अर्त्यस्य सेवनं देवपूजनम् इत्येवं प्रोक्तवान् स्वामी सतीर्थ्याश्च तथैव स रचनं प्रत्यचिन्तयत् उन्नत्याध्यात्मिको भाव स्वामिनोऽङ्गीकृतो ननु सह शिष्यै तथा प्रेम तेषां तस्मिन्न भूदपि नियुक्तो गुरुणा स्वामी निर्वोढुं निजकर्म अतस्ते स्वामिनिर्देशम् अन्नवर्तन्त सर्वदा वेदान्तस्य प्रचारार्थं स्वस्य सन्न्यासिसोदरान् स्वामी प्रेषितवान् नानास्थानानि भारते कृत्वा भाषणमश्रान्तम् अध्यात्मविषयोपरि बभूव स्वामिवर्यस्तु किञ्चिदस्यास्य पीडितः पालयन् वैद्यनिर्देशं गतः स्वामी हिमालयं विश्रमानन्तरं भूय कलकत्ताम् आगतश्च सः बहवो युवकास्तस्य भाषणेन वशीकृताः संन्यासजीवनं नेतो व्यग्रचेत्रास्तु ते भवन् तेभ्यः संन्यासदीक्षां स विधिवत् प्रददौ तथा अनूजग्राहतान् सर्वान् विना किमपि संशयम् निजमुक्तौ तथैवाण्य जनसौक्षाय केवलं संन्यासी भुवने जात स्वामी तारेवमुक्तवान् स्विहन्नि येनैव संन्यासी स्वसुखाय कदाचन काञ्चनादिकवस्तूनि विसवत् स परित्यजेत् लोककल्याणमुद्दिश्य कुर्यात् कर्मसु सर्वदा एतादृशानि वाक्यानि प्रोक्तानि स्वामिना तदा विना विवेचनं दीक्षा संन्यासाय परिचिन्तितम् अत्येवं बहुभिर्मठवासिभिः रक्ता भवदनो भूत्वा भावोत्ते जनहेतुना तादृशान् हि सति सतीर्थाश्च समाकर् सत्स्वतेजसा किं मया ज्ञायते नैव मनुजप्रकृतिः स्वयम् अवगच्छाम्यहं तेषां वृत्तान्तं पूर्वजन्मनः अस्मिन् जन्मनि किं किं वा कृतमेतैजनैस्तथा भावि जन्मनि किं कुर्या इत्यपि ज्ञायते मया द्वारेषु बहुषु व्यथ साडतं चक्रुरेव ते यद्यहं च निराकुर्यां गच्छेयु कुत्र ते जनाः गिरीशचन्द्रघोषाख्यो दृढशिष्यो गुरोरभू दैवादाश्रममायात स्वनाटककृते कृते कदा वेदान्तज्ञानसम्पत्यां सत्याम् अपि तदन्तरे मृतप्रेमा भवत्येति शिष्यान् वक्तुं श्रेष्ठवान् भारतीयजनतायाः सह्यातीतव्यथा व्यसाप्रति तेन नाटकरीत्यैव वर्णितं विस विस्तरेण च परिहर्तुम् इदं दुःखं वेदा किं शक्नुवन्नि वा विवेकानन्दवर्यं स इत्येवं पृष्टवान् परम् शृण्वन्नासीत स्वामी वर्यो घोषास्योक्तिरशेषतः निकारविवशो भूत्वा वाष्पवृष्टिं चकारसह भवद्भिरनुभूतं तु स्वामिनो बुद्धिवैभवं वीक्षतामधुना तस्य विशिष्टहृदयं ह्यपि सर्वेषामपि शिष्याणाम् अवेक्षां स्वामिनं प्रति समाकर्षन् घोषवर्य तानित्येवम् अभासत गुरुदेवस्य शिष्याणां भक्तानामपि मेलनं स्वामिवर्यस्य नेतृत्वे कदाचिद् घटितं ह्यपि गुरुपदेशान्खिलान् यथोचितकं क्रमेण प्रचारयितु कामैस्तैः सम्मेलनम् इदं कृतम् शिक्षाधर्मजगन्मैत्री विषयेषु समुन्नतिः तस्साधनकलापाश्च मेलने परिचिन्तिताः सभायाम् एतदुद्दिश्य सङ्घः कश्चिदु विनिर्मितः रामकृष्णमी सञ्चेति तस्य नामानि निश्चितम् गुरुदेवस्य तत्त्वानां विशिष्टानां प्रचारणं भुवि सर्वत्र कुर्वीतसङ्गये स निरन्तरम् सङ्घाग्ेभ्य प्रदीयेत तदर्थं योग्यशिक्षणं सङ्घशाखा प्रवर्तेरन् देसे देशान्तरेषु च अध्यात्मविषये मृत्यसेवाकार्येषु केवलं सङ्घ सदा तत्परः स्यादो राजनीत्यां कदापि न सामान्याध्यक्षरूपेण निरूपितः अध्यक्षश्चाप्युपाध्यक्षो डावण्यौ स्वामिनौ तथा एतन्मध्ये सः शिष्याः केचित् सन्दिग्धमानता उद्यस्य स्वामिवर्यस्य द्विविधा कर्मपद्धतिः मनुष्यसेवनद्वारा देवताराधनं कथम् सक्यं भवेदिति शङ्का तेषां चित्ते स्वजायत एकाकिना विधातव्यं ध्यानं च प्रार्थनं करो ईश्वरप्रेम तद्वारा वर्धयेम वयं हृदि नित्येवम् अभुवन्नूनं गुरुदेवस्य शिक्षणम् पद्धति स्वामिन किन्तु विभिन्ना ते यजुक्तं गुरुदेवेन भवता भाषितं नत विदेशे स्वमतं प्रोक्तं केवलं कोप्यसूचयत। आदो मामवगच्छन्तो जना सम्यक् ततः परम् ज्ञास्यन्ति गुरुदेवं ते स्वामिनैव मुदीरितं क्रियन्ते सङ्घकार्याणि पाश्चात्त्यानां विधिक्रमा गुरुवाक्यानुसारेण नैवेद्यन्तो नवेदयत् जानासि त्वं कथं यत् गुरुणा न कल्पितं कल्पितम् अशङ्कानामाशयानां मर्तिमान भवद्गुरुः भवद्द्रुग्धा परिक्षेत्तुं गुरुं किमभिं वाञ्छसि सीमा एतादृश सर्वा अहम्भेष्यामि सर्वथा प्रशिक्ष्यामि तु सर्वत्र लोके तानाशयानहम् आवेशपूर्वमित्येवं स्वामी व्यापितवानपि यत्किञ्चिदकरो स्वामी भवत तत्पृष्ठतोऽभवत् स्वकर्माणि याचितवान याचितवान् गुरुं मनोविकृतियो भावात् चिन्ता सङ्कुचितास्तथा विवेकानन्दवर्येण न कदाप्यनुमोदिताः केशाश्चिन्यासन्न्यासी जनानां सामिनस्तथा मध्ये स्थितो मतभेद ये कदा भवत। आध्यात्मिकजना मुक्ते लाभाक्तं भक्तिमेव च आश्रयेऽर्जुनं दिशयां समाजहितकारिणः